नारदपुराणं पूर्वार्थम् अध्यायं तर्टि त्रि नारद उवाच भगवन् सर्वमाख्यातं यत्पृष्ठं विदुषा त्वया संसारपार्श्वबद्धानां दुःखानि सुबहूनि च अस्य संसारपार्श्वस्य चेतकः कदमस्मृतः येनोपायेन मोक्षः स्यात् तन्मे ब्रूहि तपोधन प्राणिभिः कर्मजालानि क्रियन्ते प्रत्यहम्भृशम् भुज्यन्ते च मुनिश्रेष्ठ तेषाम् नाशकथम् भवेद कर्मणा देहमाप्नोदि देही कामेन बध्यते दे। क्रोध कामाल्लोभाभिभूतस्याल्लोभात्क्रोधपरायणाः क्रोधाञ्च धर्म नाश्यस्याद्धर्म नाश्यान्मदिभ्रमः प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च तस्माद्देहं पापमूलं पापकर्मरदं तथा यथा देहभ्रमत्यक्त्वा मोक्षभा स्यात् तथा वद सनक उवाच साधु साधु महाप्राज्ञमधिष्ठे विमलोर्जिता यस्मात् मोक्षो मोक्षोपायमभीक्षसि यस्याज्ञया जगत्सर्वम् ब्रह्मा सृजति सुव्रदा हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः अहमादिविशेषान्ता जादा यस्य प्रभावदः तं विद्यान् विष्णुं विष्णुम् नारायणमनामयम् यस्यां भिन्नमिदं सर्वं यच्चङ्गद्यञ्च ने गी तमुग्रमजरम् देवं ध्यात्वा दुःखात् प्रमुच्यते अविकारमजं शुद्धं स्वप्रकाशं निरञ्जनं ज्ञानरूपं सदानन्दं प्राहुर्वै मोक्षसाधनम् यस्यावताररूपाणि ब्रह्माद्या देवतागणाः समर्चयन्ति तं विद्या चाश्वतस्तानदं हरिम् जितप्राणार्जिताहाराः सदा ध्यानपरायणाः हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम् निर्गुणोऽपि गुणाधारो लोकानुग्रहरूपधृक आकाशमध्यगपूर्णस्तं प्राहुर्मोक्षदं नृणाम् अध्यक्षः सर्वकार्याणाम् देहिनो हृदये स्थितः अनूपमोऽ किलाधारस्ताम् शरणं व्रजेत सर्वं सङ्गृह्य कल्पान्ते शेदे यस्तु जले स्वयं तं प्राहुर्मोक्षतं विष्णुं मुनयस्तत्त्वदर्शिनः वेदार्थविद्भिः कर्म ज्ञैरिज्यदे विविधैर्मकैः स एव कर्मफलदो मोक्षदो काम कामकर्मणाम् हव्यकव्यादिदानेषु देवतापि त्रिरूपधृकभुङ्क्रेय ईश्वरो व्यक्रस्तं प्राहुर्मोक्षदं प्रभुं व्याधप्रणमिदो वापि पूजिदो वापि भक्तिदः दतादिशाश्वतं स्थानं तं दयालुं समर्चयेत् आधारसर्वभूतानां मेघो यः पुरुषः परः जरामरणनिर्मुक्तो मोक्षदस्सोऽव्ययो हरिः सम्पूज्य यस्य पादाब्जं देहिनोऽपि अमृतत्वं भजं त्याशु तं विधुः पुरुषोत्तमम् आनन्दमजरं ब्रह्मपरं ज्योतिषनातनं परापरतरं यञ्च तद्विष्णोः परमं पदं अद्वयं निगुणं नित्यमद्वितीयमनौपमं परिपूर्णं ज्ञानमयम् विदुर्मोक्षप्रदाधकम् एवम्भूतम् परं वस्तु योगमार्गविधानदः य उपास्ते सदा योगी स यादि परमम् पदम् परसर्वसङ्गपरित्यागी क्षमादिगुणसंयुतः वर्जितो योगी लभदे परमं पदं नारद उवाच कर्मणा योगस्य सिद्धिर्भवति योगिनां तदुपायं यथा तत्त्वं ब्रूहि मे वदतां वर सनक उवाच ज्ञानलभ्यं परमोक्षं प्राहुस्तत्त्वार्थचिन्तकाः यत् ज्ञानं भक्तिमूलं च भक्तिकर्म वदां तथा दानानि यज्ञा विविधास्तीर्थयात्रादयकृताः येन जन्मसहस्रेषु तस्य भक्तिर्भवेद्धरौ अक्षय परमो धर्मो भक्तिदेशेन जायते श्रद्धया परया चैव सर्वं पापं प्रणश्यति सर्वपापेषु नष्टेषु बुद्धिर्भवति निर्मला सैव बुद्धिसमाख्यादा ज्ञानशब्देन सूरिभिः ज्ञानं च मोक्षदं प्राहुस्तज्ज्ञानं योगिनां भवेद योगस्तु द्विविधप्रोक्तकर्मज्ञानप्रभेददः क्रियायोगं विना नृणां ज्ञानयोगो न सिध्यति क्रिया योगरतस्तस्मात् श्रद्धया हरिमर्चयेत् द्विजभूम्यग्निसूर्याम्बुधादु हृञ्चित्रसंज्ञाः प्रधिमा कशवाचयिता पूज्य एदा सुभक्तितः कर्मणा मनसा वाचा परिपीडापराङ्मुखः तस्मात् सर्वगदं विष्णुं पूजयेद्भक्तिसंयुधः अहिंसा सत्यमक्रोधो ब्रह्मचर्या परिग्रहौ अनीर्ष्या च दया चैव योगयोरुभयोः समाः चराचरात्मकं विश्वं विष्णुरेव सनातनः यदि निश्चित्य मनसा योगद्विदयमभ्यस्येद आत्मवत्सर्वभूतानि ये मन्यन्ते मनीषिणः ते जानन्ति परं भावं देवदेवस्य चक्रिणः यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेद् न तस्य तुष्यते विष्णुर्यतो धर्मपदि यदि कामादिदुष्टात्मा देवपूजा परो भवेद दम्भाचारस्स विज्ञेयः सर्वपादकिभिः समः तपः पूजाध्यानपरो यस्त्वसूयारदो भवेद तत्तपःसाजपूजा च तध्यानम् हि निरर्थकम् तस्मात् सर्वात्मकं विष्णुं समाधिगुणतत्परः मुक्त अर्थमर्चयेत् सम्यक् क्रिया योगपरो नरः कर्मणा मनसा वाचा सर्वलोकहितेरतः समर्चयदि देवेशं क्रिया योगः स उच्यते नारायणं जगद्योनिम् सर्वान्तर्यामिणं हरिं स्तोत्राद्यैस्तौदि यो विष्णुं कर्मयोगी स उच्यते उपवासादिभिश्चैव पुराणश्रवणादिभिः पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृदः एवं भक्तिमदं विष्णौ क्रियायोगरदात्मनां सर्वपानि नश्यन्ति पूर्वजन्मार्जितानि वै पापक्षयाक्षुत्वमधिर्वांशतिज्ञानमुत्तमं ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामिते। ते चरा चराचरात्मके लोके नित्यं चानित्यमेव च सम्यक्विचारये विचारयेद्धीमान् सद्भिः शास्त्रार्थ कोविदैः अनित्यास्तु पदार्था वैनित्यमेको हरिस्मृतः अनित्यानि परित्यज्य नित्यमेव समाश्रयेद इहामुत्रजभोगेषु विरक्तश्च तथा भवेद् अविरक्तो भवेद्यस्तु स प्रवर्तते अनित्येषु पदार्थेषु यस्तु रागी भवेन्नरः तस्य संसारविच्छित्तिकदाचिन्नैव जायते समाधिगुणसम्पन्नो मोमुक्षो ज्ञानमभ्यसेत् समादिगुणहीनस्य ज्ञानं नैव च सिद्ध्यति रागद्वेषविहीनो यः समादिगुणसंयुधः परो नित्यं मुमुक्षुरभिधीयते चतुर्भिःसाधनैरेभिर्विशुद्धमधिरुच्यते सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः क्षराक्षरात्मकं विश्वं व्याप्य नारायणस्थितः इति जानाति यो विप्रतज्ञानं योगजं विदुः योगोपायमदो वक्ष्ये संसार विनिवर्तकम् योगो ज्ञानं विशुद्धं स्यात्तमोक्षदम् विदुः आत्मानं द्विविधम् प्राहुः परापर विभेदः द्वे ब्रह्मणि वेदितव्ये इति चाद्धर्वर्णी श्रुतिः परस्तु निर्गुणप्रोक्तो ह्यहङ्कारयुतो वरः तयोरभेदविज्ञानं योग इत्यभिधीयते दे। पञ्चभूतात्मके देहे यः साक्षी हृदये परमात्मा परस्मृदः शरीरं क्षेत्रमित्याहुस्त स्तः क्षेत्रज्ञ उच्यते अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृदः यदा त्वभेदविज्ञानं जीवात्मपरमात्मनोः भवेत्तदा मुनिश्रेष्ठ पाशच्छेदो परात्मनः एकशुद्धोऽक्षरो नित्यः परमात्मा जगन्मयः नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते एकमेव द्वितीयं यत् परं ब्रह्मसनातनं गीयमानं च वेदान्तैस्तस्मान्नास्ति परं द्विजा न तस्य कर्मकार्यं वा रूपं वर्णमथापि वा कर्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः निदानं सर्वहेदूनां तेजो यत्तेजसां परं किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे शब्दब्रह्ममयं यत्तन्महावाक्यादिकं द्विज तद्विचारोद्भवं ज्ञानं परमोक्षस्य साधनं सम्यग् ज्ञानविहीनानां दृश्यदे विविधं जगद परमज्ञानिनामेदत् परब्रह्मात्मकं द्विज एक एव निर्गुणः परतः परः भादिविज्ञानभेदेन बहुरूपधरोऽव्ययः मायिनो मायया भेदं पश्यन्ति परमात्मनि तस्मान् मायां त्यजेद्योगान्मुक्षुर्द्विजसत्तमम् नासद्रूपा न सद्रूपा माया नैवो भयात्मिका अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदारिणी मायैव ज्ञानशब्देन बुद्ध्यदे मुनिसत्तम तस्मादज्ञानविच्छेदो भवेद्रौजिदमायिनाम् सनातनम् परं ब्रह्मज्ञानशब्देन कथ्यते ज्ञानिनां परमात्मा वै हृदिभाधिनिरन्तरम् अज्ञानं नाशयेद्योगी योगेन मुनिसत्तम अष्टाङ्गै सिध्यते योगस्तानि वक्ष्यामि तत्त्वदः यमाश्च नियमाश्चैव आसनानि च सत्तम प्राणायामप्रत्याहारो धारणाध्यानमेव च समाधिश्च मुनिश्रेष्ठ यो गाङ्गानि यथाक्रमं येषां वक्ष्ये लक्षणानि मुनीश्वर अहिंसा सत्यमस्तेयं ब्रह्मचर्या परिग्रह अक्रोधस् चानसूया च चा प्रोक्ता सङ्क्षेपदो यमाः सर्वेषामेव भूतानामक्लेशजननं हि यद् अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी यथार्थकथनं यञ्च धर्मा धर्म सत्यं प्राहुर्मुनिश्रेष्ठ अस्तेयं शृणु साम्प्रदम् क्षौर्येण वा बलेनापि परस्वहरणं हि यद् स्तेयमित्युच्यते सद्भिरस्तेयं तत् विपर्ययम् सर्वत्र मैधुनत्यागो ब्रह्मचर्यम् प्रकीर्तितं ब्रह्मचर्यपरित्यागाज्ञानभानपिपादकी सर्वसङ्गपरित्यागी मैथुने यस्तु वर्तते स चण्डालसमज्ञेयस्सर्ववर्णबहिष्कृतः यस्तु योगरथो विप्रविषयेषु स्पृहान्विदः तत्सम्भाषणमात्रेण ब्रह्महत्या भवेन्नृणां सर्वसङ्गपरित्यागी पुनस्सङ्गी भवेद्यदि तत्सङ्गसङ्गिनां सङ्गान्महापादकदोषभाक् अनादानं हि द्रव्याणामापद्यभिमुनीश्वर अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः आत्मनस्तु समुत्कर्षदधि निष्ठुरभाषणं क्रोधमाकुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः धनाद्यैरधिकं दृष्ट्वा भृशं मनसि तापनम् असूया कीर्तिदा सद्भित्तत्यागो ह्यनसूयता एवं सङ्क्षेपदप्रोक्ता यमा विबुधसत्तमा नियमानपि वक्ष्यामि तुभ्यं तान् शृणु नारद तपःस्वाभ्याय सन्तोषा शौचं च हरिपूजनं सन्ध्योपासनमुख्याश्च नियमाः परिकीर्तिताः चन्द्रायणादिभिर्यत्र शरीरस्य विशोषणं तपो निगदितं सद्भिर्योगसाधनमुत्तमं प्रणवस्योपनिषदां द्वादशार्णस्य च अष्टाक्षरस्य मन्द्रस्य महावाक्य च यस्य उदितो योगसाधनमुत्तमं स्वाध्यायं यस्त्यजेन्मूठस्तस्य योगो न सिध्यति योगं विनापि स्वाध्यायात् पावनाशो भवेन्नृणां स्वाध्यायै स्तोष्यमाणाश्च प्रसीदन्ति हि देवताः जपस्तु त्रिविधप्रोक्तो वाचिकोपांशु मानसः त्रिविधेऽपि च विप्रेन्द्रपूर्वात् पूर्वात् परोवरः मन्त्रस्योच्चारणं सम्यक् स्फुटाक्षरपदं यथा जपस्तु वाचिकप्रोक्तसर्वयज्ञफलप्रदः मन्त्रस्योच्चारणे किञ्चित् पदात् पदविमोयचनम् स तूपां शूर् जप प्रोक्तपूर्वस्माद्विगुणोऽधिकः विधाय ह्यक्षरश्रेण्यां तत्तदर्थविचारणां स जपो मानसप्रोक्तो योगसिद्धिप्रदायकः जपेन देवता नित्यं स्तुवदत् तस्मा तस्मात् स्वाध्यायसम्पन्नो लभेत्सर्वान्मनोरथान् यदृच्छालापसन्धुष्टिसन्तोष इति गीयते सन्तोष हि न पुरुषो न लभे चर्म कुत्रचिद् न चादुकामकामानामुपभोगेन सम्यधि इदोऽधिकं कदा लप्स्य इति कामस्तु वर्धते तस्मात् कामं परित्यज्य देहसंशोषकारणं यदृच्छालाभः सन्तुष्टो भवेद्धर्मपरायणः बाह्याभ्यन्तरभेदेन शौचं तु द्विविधं स्मृतं मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम् अन्तःशुद्धिविहीनैस्तु यध्वरा विविधा न फलं विमुनि श्रेष्ठ भस्मनिन्यस्त हव्यवद भावशुद्धिविहीनानां समस्तं कर्म निष्फलं तस्माद्रागाधिकं सर्वं परित्यज्य सुखी भवेद् मृदाभारसहस्रैस्तु कुम्भकोटिजलैस्तथा कृतशौचोऽपि दुष्टात्मा चण्डालसदृशस्मृतः अन्धशुद्धिविहीनस्तु देवपूजापरो यदि तमेव दैवदं हन्ति नरकं च प्रपद्यते अन्धशुद्धिविहीनश्च बहिःशुद्धिं करोति यः अलं कृतसुराभाण्ड इव शान्तिं मनःशुद्धिविहीना ये तीर्थयात्रां प्रकुर्वते न तान् पुनन्ति तीर्थानि सुराभाण्डमिवापगा वाचाधर्मान् प्रवलददि मनसा पापमिच्छति जानीयात् तं मुनिश्रेष्ठमहापादकिनां वरम् विशुद्धमानसायेदु धर्ममात्रमनुत्तमं धर्ममात्रमनुत्तमम् कुर्वन्ति तद्फलम् विद्यादक्षयम् सुखदायकम् कर्मणा मनसा वाजास्तुदिश्रवणपूजनैः हरिभक्तिर्दृष्ठा यस्य हरिपूजेदि गीयते यमाश्च नियमाश्चैव सङ्क्षेपेण प्रबोधिताः ये विशुद्ध येभिर्विशुद्धमनस्सां मोक्षं हस्तगदं विदुः यमैश्च नियमैश्चैव स्थिरबुद्धिर्जितेन्द्रियः अभ्यसेदासनं सम्यग् योगसाधनमुत्तमं स्वस्तिकं स्वस्तिकम्पीढं सैंहं कौकुडकौ जरे कौमं वज्र वज्रासनं चैव वाराकं मृगचैलिकं क्रौञ्चं च नालिकं चैव सर्वदो भद्रमेव च वार्षभं नागमत्स्यज वैयान्कं चार्द्धचन्द्रकं दण्डवातासनं शैलं स्वभ्रं मौद्गरमेव माकरं त्रैपथं काष्ठं स्थाणुं वैकर्णिकं तथा भौमं वीरासनं चैव योगसाधनकारणं त्रिंशत्सङ्ख्यान्यासनानि मुनीन्द्रै कथितानि वै येषामेकतमं बद्धा गुरुभक्तिपरायणः उपासको जयेत् प्राणान्द्वन्द्वादिदो विमत्सरः प्राङ्मुखो दङ्मुखो वापि तथा प्रत्यङ्मुखोऽपि वा अभ्यासेन जयेत् निश्वदे जनवर्जिते प्राणो वायुशरीरस्थ आयामस्तस्य निग्रहः प्राणायाम यदि प्रोक्तो द्विविधः सप्रकीर्तितः अगर्भश्च सगर्भश्च द्वितीयस्तुतयोर्वरः जय ध्यानं विना गर्भस्सगर्भस्तत्समन्वितः रचकपूरकश्चैव कुम्भक कुम्भकशून्यकस्तद्धा एवं च द्विधप्रोक्तः प्राणायामो मनीषिभिः जन्तूनां दक्षिणानाडी पिङ्गला परिकीर्तिता सूर्यदैवतपा दैवतकाचैव पितृयो निरुदिश्रुदा देवयो निरुदिश्च्यादा युडानाडी त्वदक्षिणा तत्रादि तत्राधिदैवतचन्द्रं जानीहि मुनिषत्तमं ये तयोरुभयोर्मध्ये सुषुम्ना नाडिका स्मृता अधिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता वामेन च येद्वायुं रे जनाद्रेजकस्मृतः पूरयेद्दक्षिणेनैव पूरणात् पूरकस्मृतः स्वदेहपूजितं वाह्यं निगृह्य न विमृञ्चति सम्पूर्णकुम्भवस्तिष्ठेत् कुम्भकस्सहि विश्रुतः न गृह्णादि न त्यजति वायुमन्तर्बहिष्ठितं विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितं शनैः प्राणो मत्तगजेन्द्रवद अन्यथा खलु जायन्ते महारोगा भयंकराः क्रमेण योजये द्वायं योगी विगतकल्मषः स सर्वपापनिर्मुक्तो ब्रह्मणपदमाप्नुयात् विषयेषु प्रसक्तानि चेन्द्रियाणि मुनीश्वरः समामाहृत्य निगृह्णादिप्रत्याहारस्तु सस्मृतः जितेन्द्रिया महात्मानो ध्यानशून्या अपि द्विज प्रयान्ति परमम् ब्रह्म पुनरावृत्तिदुर्लभम् अन्यजितेन्द्रियग्रामम् यस्तु ध्यानपरो भवेद मूढात्मानं च तं विद्या ध्यानम् चास्य यद्यत् पश्यति तत्सर्वं पश्येदात्मवदात्मनि प्रत्याकृतानीन्द्रियाणि धारयेत्साधु धारणां योगाजितेन्द्रियग्रामस्थानि कृत्वा दृढं हृदि आत्मानं परमं ध्यायेत् सर्वधाधारमच्युतं सर्वविश्वात्मकं विष्णुं सर्वलोकैककारणं विकसत् पद्यपत्राक्षं चाजुकुण्डलभूषितम् दीर्घबाहुमुधाराङ्गं सर्वालङ्कारभूषितं पीदाम्बरधरं देवं हेमयज्ञोपवीदिनम् बिभ्रदं तुलसीमालां कौस्तुभेन विराजितं श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम् अष्टारे कृत्सरोजेदुद्वादशाङ्कुलविस्तृते ध्यायेदात्मानमव्यक्तं परात् परतरं विभुं ध्यानं सद्भिनिर्गदितं प्रत्ययस्यैकता नता ध्यानं कृत्वा मुहूर्तं वा परमोक्षं लभे लभेन्नरः ध्यानात् पापानि नश्यन्ति ध्यानान् मोक्षं च विन्दति ध्यानात् प्रसीदति हरिद्धर्याना सर्वार्थसाधनं यद्यद्रूपं महाविष्णोस्तत्त्यायेत्समाहितं तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै अचञ्चलंह न वस्तुनि सत्तम ध्यानं ध्येयं ध्यादृभावं यथा निर्भरं तदो मृतत्वं भवति ज्ञानामृद निषेवणाद भवेन्निरन्तरं ध्यानादभेदप्रतिपादनं सुश्रुक्ति सुश्रुत्पिवत् परानन्दयुक्तश्चोपरतेन्द्रियः निर्वादीपवत्संस्तत्समाधिरभिधीयते योगी समाध्यवस्थायां न योगी न पश्यति न जिख्रदि न स्पृशति न किञ्चिद्वक्रिसत्तम आत्मादु सर्वोपाधिविनिर्मुक्तो योगिनां भाग्यचञ्चलः निर्गुणोऽपि परो देवो ह्य ज्ञानाद्गुणवानिव विभात्यज्ञाननाशेतु यथा पूर्वं व्यवस्थितं परं ज्योतिरमेयात्मा मायावानिव मायिनां तन्नाशे निर्मलं ब्रह्मप्रकाशयदि पण्डितम् एकमेवाद्वितीयं च परं ज्योतिर्निरञ्जनं सर्वेषामेव भूधानामन्तर्यामिदयास्थितम् अणोरणीयान्महदो महीयान् सनातनात्मा किल विश्वहेतुः पश्यन्ति यज्ञानविधां वरिष्ठाः परात् परस्मात् परमं पवित्रम् अकारादिक्षकारान्तवर्णभेदव्यवस्थितः पुराणपुरुषो नादिशब्दब्रह्मेदि गीयते विशुद्धमक्षरं नित्यं पूर्णमाकाशमध्यगम् आनन्दं निर्मल शान्तं परं ब्रह्मेदि गीयते योगिनो हृदि पश्यन्ति परात्मानं सनातनं अविकारमजं शुद्धं परं ब्रह्मेधिगीयते ध्यानमन्यत्प्रवक्ष्यामि शृणुष्व मुनिसत्तमसंसारतापतप्तानां सुधा वृष्टिसमं नृणां नारायणं परानन्दं स्मरेत् प्रणवसंस्थितम् नादरूपमनौपम्यमर्धमात्रोपरिष्ठितम् अकारम् ब्रह्मणो रूपमुकारम् विष्णुरूपवद मकारम् रुद्ररूपम् स्यात् धर्मत् मात्रम् परात्मकम् मात्रास्तिस्रस्त समाख्याद ब्रह्मविष्णुशिवाधिपाः तेषाम् समुच्चयम् विप्रपरब्रह्मप्रबोधकम् वाच्यम् दुपरमम् ब्रह्मवाचकप्रणवस्मृतः वाच्यवाचकसम्बन्धो ह्युपचारतयो द्विजा जपन्तप्रणवम् नित्यम् मुच्यन्ते सर्वपादकैः तदभ्यासेन संयुक्ताः परम् मोक्षम् लभन्ति च जपंश्च प्रणवं मन्द्रं ब्रह्मविष्णुशिवात्मकं कोडिसूर्यसमं तेजो ध्यायेदात्मनि निर्मलं शालग्रामशिलारूपं प्रदिमारूपमेव वा यद्यत्पापखरं वस्तु तत्तद्वा यदे चिन्तयेद्धृदि यदेतद्वैष्णवं ज्ञानं कथितं ते मुनीश्वर ये दद्विदित्वा योगीन्द्रो लभते मोक्षमुत्तमम् यस्त्वेदच्छृणुयाद्वापि पठेद्वापि समाहितः स सर्वपापनिर्मुक्तो हरि सालोक्यमान्पुयाद् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे योगनिरूपणं नाम त्रयत्रिंशोऽध्यायः ओम्